नारायणीयं दशकं फोर्टिफैव् मीटर्मालिनी अयि सबलमुरारे पाणिजानुप्रचारैः किमपि भवनभागान्धोषयन्तौ भवन्तौ चलितचरणकञ्चौ मञ्जुमञ्जीरशिञ्जाश्रवणकुतुबभाजौ चरतुष्टारुवेगाद मृदु मृदु विहसन्दा उन्मिश्रदन्तवन्दौ वदनपदिदकेशौ दृश्यपादाब्जदेशौ भुजगलितकरान्दव्यालगत्कङ्कणाङ्गौ मदिमहरदमुच्चैः पश्यतां विश्वनृणाम् अनुसरदि जनौखे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ वलितवदनपद्मं पृष्टतो दत्तदृष्टि किमिव न विदधादे कौतुकं वासुदेव धृतगदिषुपदन्ता उद्धितौ लिप्तपङ्कौ दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ द्रुतमथजननीभ्यां सानुकंपं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्पितौ च स्नुतकुचभरमङ्गे धारयन्ती भवन्तं तरलमदीयशोदास्तन्यदा धन्यधन्या कपडपशुपमध्ये मुग्धभासाङ्गुरन्ते दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष तदनुचरणचारी तारकैस्साकमारान्निलय तदिषु खेलन् बालचापल्यशाली भवनशुकबिडालान्वत्सकांश्चानुधावन् कथमपि कृदहासैर्गोपकैर्वारितोऽभूः हलधर सहितस्त्वं यत्र यत्रोपयादो विवशपदिदनेत्रास्तत्र तत्रैव गोप्यः विगलितगृहकृत्या विस्मृदापत्यभृत्या मुलहरमुहुरत्यन्धाकुला नित्यमासन् प्रदिनवनवनीदं गोपिका दत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् सदयुवति लोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् मम खलु या जनञ्जातमास्तामिह पुनरबलानामग्रदो नैव कुर्वे इति विहितमधिक्यं देव सन्त्यज्य याज्ञां दधिकृतमहरस्त्वं तव दधि कृतमोषे घोषयोषा जनानामभजत भजद रोषो नावकाशं न शोकः हृदयमपि मुषित्वा हर्षसिन्धौण्यदास्त्वं सममशमयरोगान्वाद गेहाधिनाथ सर्वत्र गोविंदनाम सङ्कीर्तनं गोविन्द Govinda